श्री अथ श्रीमहागेशरत्नोत्री गणेशय नम मुदकमोदा विमुक्ति साधक कलाधरावतंसकम् विलासिलोकरञ्जकम् अनायकैकनायकम् विनाशिते भदैत्यकम् न ताशुभाशुनाशकम् न ना मामितं विनायकम् न ते तरातिभिकरम् न वोदितार्कभास्वरम् न मत्सुरजर नताधिकपदुर सुरे गजेशर गणेश महेश्वरं तमाश्रये परात्परं निरन्तरम् समस्तलोकशङ्करम् निरस्तदैत्यकुञ्जरम् दरेतरोदरं वरम् वरे भवरम् कृपाकरं क्षमाकरम् करंग। मुदाकरं यशस्करम् मनस्करं नमस्कृता नमस्करोमि भास्वरम् अकिञ्चनार्तिमार्जनम् चिरन्तनोक्तिभाजनम् पुरारिपूर्वनन्दनम् सुरारिगर्वचर्वणम् प्रपञ्चनाशभीषणम् धनञ्जयादिभूषणम् पुलदानवारणम् भजे पुराणवारणम् नितान्तकान्तदन्तकान्तिम् अन्तकान्तकात्मजम् चिन्त्यरूपमन्तहीनम् अन्तराय कृन्तनम् हृदन्तरे निरन्तरम् दन्तमेवतं विचिन्तयामि सन्ततं महागणेशपञ्चरत्नम् आदरेण योऽन्वहम् प्रगायति प्रभातके हृदिस्मरन् गणेश्वरम् अरोगताम् अदोषता सुसाहितिं सुपुत्रता समाहितायुरष्ट भूतिम् अभ्युपैति सोचिरात् इति श्रीमहागणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् हरिवो दत्सत्